अथ नवाधिकद्विशततमोऽध्यायः नारद उवाच उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणाबुभौ मन्त्रयित्वा तदा सुहृद्भिरप्यनुज्ञातौ दैत्यैरुद्धैश्च मन्त्रिभिः कृत्वा प्रास्थानिकम् रात्रौ मघा गदापट्टिषधारिण्या शूलमुद्गरहस्तया प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया मङ्गलैस्तुतिभिश्चापि विजयप्रतिसंहितैः चारणैस्तूयमानौ तौ जग्मतुः परया मुदा दैत्यौ कामगमावुभौ देवानामेव भवनम् जग्मतुर्युद्धदुर्मदौ तयोरागमनम् ज्ञात्वा वरदानं च तत्प्रभोः हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकम् ततः सुराः ताविन्द्रलोकम् निर्जित्य यक्षरक्षोगणांस्तदा खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ गतान्नागान् जित्वा तौ च महारथौ समुद्रवासिनीः सर्वा म्लेच्छजातेर्विजिज्ञतुः ततः सर्वाम् महीम् जेतुम् आरब्धा उग्रशासनौ सैनिकांश्च समाहूय सुतीक्ष्णम् वाक्यमोचतुः राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः तेजो बलम् च देवानाम् वर्धयन्ति श्रियम् तथा तेषामेवम् प्रवृत्तानाम् सर्वेषामसुरद्विषान् सम्भूय सर्वैरस्माभिः कार्यः सदिश्य पूर्वतीरे महोदे क्रूरा सग्म मुखो यद्ज ये केचि याजयं च ये ईजा तवान्स हलिनौ जम्म आश्रमेष्वग्निहोत्राणि मुनीनाम् भावितात्मनाम् गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धम् सैनिकास्तयोः तपोधनैश्चये क्रुद्धैः शापा उक्ता महात्मभिः नाक्रामन्ततयोस्तेऽपि वरदा